अधः पञ्चषष्टितमः सर्गः स तथोक्तस्तु निर्भर्त्स्य कुम्भकर्णो महोदरम् अब्रवीद्राक्षस श्रेष्ठम् भ्रातरम् ततः सोऽहम् तव भयम् घोरम् वधात्तस्य दुरात्मनः रामस्याद्यप्रमार्जामि निर्वैरोहि सुखी भव गर्जन्ति न निर्जला इव यदाः पश्य सम्पद्यमानम् तु गर्जितम् युधिकर्मणा न मर्शयन्ति चात्मानम् अदर्शयित्वा शूरास्तु कर्म कुर्वन्ति दुष्करम् विक्लवानाम् ह्यबुद्धीनाम् राज्ञाम् पण्डितमानिनाम् रोचते त्वद्वचो नित्यम् कथ्यमानम् युद्धे का पुरुषैर्नित्यम् भवद्भिः राजानमनुगच्छद्भिः सर्वम् कृत्यम् विनाशितम् राजशेषाकृतालङ्काक्षीणः कोशोऽबलम् हतम् राजानमिममासाद्य सुहृच्चिह्नममित्रकम् एष निर्याम्यहम् युद्धमुद्यतः शत्रुनिर्जये दुर्नयम् भवतामद्य समीकर्तुम् महाहवे एवमुक्तवतो वाक्यम् कुम्भकर्णस्य धीमतः प्रत्युवाच ततो वाक्यं प्रहसं राक्षसाधिपः महोदरोऽयम् रामात्तु परित्रस्तो न संशयः महि रोचयते तात युद्धम् युद्धविशारद कश्चिन्मे त्वत्समो नास्ति सौहृदेन बलेन च गच्छशत्रुवधाय त्वम् कुम्भकर्णजयाय च शयानः शत्रुनाशार्थम् भवान् सम्बोधितो मया अयम् हि कालः सुमहान् राक्षसानामरिन्दमा सङ्गच्छशूलमादाय पाशहस्त इवान्तकः वानरान् राजपुत्रौ च भक्षयादित्यतेजसौ समालोक्यतु ते रूपम् विद्रविष्यन्ति वानराः रामलक्ष्मणयोश्चापि हृदये प्रस्फुटिष्यतः एवमुक्त्वा महातेजाः कुम्भकर्णम् महाबलम् पुनर्जातमिवाऽऽत्मानम् मेने राक्षसपुङ्गवः कुम्भकर्णबलाभिज्ञो जानंस्तस्य पराक्रमम् बभूवमुदितो राजा शशाङ्क इव निर्मलः इत्येवमुक्तः संहृष्टो निर्जगामहाबलः राज्ञस्तु वचनम् श्रुत्वा योद्धमुद्युक्तवांस्तदा आददेरिशितम् शूलम् सर्वम् कालाय सन्दीप्तम् तप्त काञ्चनभूषणम् इन्द्राशनि समप्रख्यम् वज्रप्रतिमगौरवम् देवदानव गन्धर्व यक्षपन्नगसूदनम् रक्तमाल्यमहादामम् स्वतश्चोद्गतपावकम् आदाय विपुलम् शूलम् शत्रुशोणितरञ्जितम् कुम्भकर्णो महातेजा रावणम् वाक्यमब्रवीत् गमिष्याम्यहमेकाकी तिष्ठत्विह बलम् मम अद्यतान् क्षुधितः क्रुद्धो भक्षयिष्यामि वानरान् कुम्भकर्णवचः रावणो वाक्यमब्रवीत् सैन्यैः परिवृतो गच्छ शूलमुद्गरपाणिभिः वानराहि महात्मानः शूराः सुव्यवसायिनः एकाकिनम् प्रमत्तम् वा नये युर्दशनैः क्षयम् तस्मात् परमदुर्धर्षः सैन्यैः परिवृतो व्रज रक्षसामहितम् सर्वम् शत्रुपक्षम् निशूदय अथासनात् समुत्पत्य स्रजम् मणिकृतान्तरा आपबन्धमहातेजाः कुम्भकर्णस्य रावणः अङ्गदान्यङ्गुलीवेष्टान्वराण्याभरणानि च हारम् च शशिसङ्काशमाबबन्धमहात्मनः हा। दिव्यानि च सुगन्धीनि माल्यदामानि रावणः गात्रेषु सज्जयामास श्रोत्रयोश्चास्य कुण्डले काञ्चनाङ्गदकेयूरनिष्काभरणभूषितः कुम्भकर्णो बृहत्कर्णः सुहृतोऽग्निरिवाबभौ श्रोणीसूत्रेण अमृतोत्पादने नद्धो भुजङ्गेनेव मन्दरः स काञ्चनम् भारसहम् निवातम् विद्युत्प्रभम् दीप्तमिवात्मभास आबध्यमानः कवचम्रराज सन्ध्याभ्रसंवीत इवाद्रिराजः सर्वाभरण सर्वाङ्ग शूल पाणिःसराक्षसः भ्रातरम् सम्परिष्वज्य कृत्वा चापि प्रदक्षिणम् प्रणम् यशिरसा तस्मै प्रतस्थे स महाबलः तमाशीर्भिः प्रशस्ताभिः प्रेषयामास रावणः सैन्यैश्चापि वरायुधैः तङ्गजैश्च तुरङ्गैश्च स्यन्दनैश्चाम्बुदस्वनैः अनु जग्मर्मत्मानो रथिनो सर्पैरुष्ट्रैःखरैश्चैव सिंहद्विपमृगद्विजैः अनुजग्मुश्च महाबलं घोरम् कुम्भकर्णम् महाबलम् स अन्वयूराक्षसा भीमा भीमाक्षाः शस्त्रपाणयः रक्ताक्षाःसु बहुव्यामानीलाञ्जनचयोपमाः शूलानुद्यम्य खड्गांश्च निशितांश्च परश्वधान् भिन्दिपालांश्च परिघान् गदाश्च मुसलानि च तालस्कन्धांश्च विपुलान् क्षेपणीयाम् दुरासदान् अथान्यद्वपुरादाय दारुणम् घोरदर्शनम् निष्पपातमहातेजाः कुम्भकर्णो महाबलः धनुःशतपरिणाहः सषट्शतसमुच्छ्रितः रौद्रशकटचक्राक्षो महापर्वतसन्निभः सन्निपत्य च रक्षांसि दग्धशैलोपमो महान् कुम्भकर्णो महावक्त्रः प्रहसन्निदमब्रवीत् अद्य वानरमुख्यानाम् तानि यूथानि भागशः निर्दहिष्या संगक्रुद्ध पतंगा निवक नापराध्यम बानरावनचारिण जातिरस्मदिधान साध्यान विभूषण से मूलं तो राघव सह लक्ष्मण हते तस्त्या संयुगे ब्रुवाण से कुंभकर्ण से नादम् चक्रुर्महाघोरम् कम्पयन्त इवार्णवम् तस्य निष्पततस्तूर्णम् कुम्भकर्णस्य धीमतः बभूवुर्घोररूपाणि निमित्तानि समन्ततः उल्काषनियुता मेघा बभूवुर्गर्दभारुणाः ससागरवना मण्डलान्यपसव्यानि बबन्धुश्च विहङ्गमाः निष्पपात च गृध्रोऽस्य शूले वैपथिगच्छतः गच्छतः प्रास्फुरन्नयनम् सव्यो बाहुरकम्पता निष्पपात तदाचोल्काज्वलन्ती भीमनिस्वना आदित्यो निष्प्रभश्चासीन्न वाति च सुखोऽनिलः अचिन्तयन्महोत्पातानुदितान् रो महर्षणान् निर्ययौ कुम्भकर्णस्तु कृताम् तबलचोदितः स लङ्घयित्वा प्राकारम् पद्भ्याम् पर्वतसन्निभः ददर्शाभ्रघनप्रख्यम् वानरानीकमद्भुतम् ते दृष्ट्वा राक्षसश्रेष्ठम् वानराः पर्वतोपमम् वायुनुन्ना इव घना ययुः सर्वादिशस्तदा तद्वानराणीकमति प्रचण्डम् दिशो द्रवद्भिन्नमिवा भ्रजालम् सकुम्भकर्णः समवेक्ष्य हर्षान्ननाद भूयो घनवद्घनाभः ते तस्य घोरम् पेतुर्धरण्याम् बहवः प्लवङ्गा निकृत्त मूला इव शालवृक्षाः विपुल परिघवान् स कुम्भकर्णो महात्मा कपिगणभयमादधत् सु भीमम् युगान्ते इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चषष्टितमः सर्गः